श्रीहरि नमः अथ अष्टचत्वारिंशोऽध्यायः श्रीशुक उवाच अथ विज्ञाय भगवान् सर्वात्मा सर्वदर्शनः सैरन्ध्र्य कामतप्ताया प्रियमिश्चन्दृहं यय महार्गोपस्करैराढ्यं कामोपायो बबृंहितं मुक्ता यनासनैः धूपैः शुरभिर्दीपैः श्रन्धैरपि मण्डितं गृहं तमायान्तम् अवेक्ष सासनात् सद्यः समुत्थाय हि जातसम्भ्रमा यतोपसङ्घं य सखीबी सभाजयामास सदासनादिभिः तथोद्धवसाधुतया विपूजितो यक्षी तत् उर्यामभिमृश्च च कृष्णो पितूर्णं शयनं महाधनं विवेश विवेशलोकाचरितान्यनुव्रतः समज्जनालेपदुकूलभूषणश्रग्गन्तताम्बूलसुतासवादिभिः प्रसादिदात्मोपफससारमाधवं सव्रीडलीलोत्स्मितविभ्रमेक्षितैः आहूय कान्तं नवसङ्गमह्रियाभिसङ्कितां कङ्कणभूषिते करे प्रगृह्य शय्यामधिवेश्य रामया रे मेनुले पार्पणपुण्यलेशय सानङ्गतप्तकुचयोपुरसस्तताक्ष्णोर्जिक्रन्त्यनन्तच्चरणेन रुजो मृजन्ते धूर्भ्यांस्तनान्तरगतं परिरभ्यकान्त आनन्दमूर्तिमजगादतिदीर्घतापं सैवं कैवल्यनाथं तं प्राप्य दुष्प्रापमीश्वरम् अङ्गरागार्पणेनाहो दुर्भगे तमया रमस्मनोत्सुखे त्यक्तुं सङ्गं तेऽम्बुरुहेशण तस्यैकामवरं धत्वा मानयित्वा च मानदहा सग उद्धवेन सर्वेश दुराराध्यं समाराध्य विष्णुं सर्वेश्वरेश्वरं यो वृणीते मनोग्राह्यम् असत्त्वात् कुमनीष्यसो अक्रूरभवनं कृष्णसह रामोद्धव प्रभुः किञ्चिच्चिकीर्षयन् प्रघात् अक्रूरप्रियकाम्यया सतान्नरवरश्रेष्ठानारात् वीक्ष्य स्वभान्धवान् प्रत्युत्याय प्रमुदितः परिष्वज्याभ्यनन्दता न नाम कृष्णं रामं च सतैरपि अभिवादितः पूजयामास विधिवत्कृतासन परिग्रहान् पादावने जनि आपो धारयन् अर्हणीना भरिव्यश्रभूषणोत्तम अर्चिवा अर्चित्वा अंकगौ व्रजन प्रश्रया ब्रजन। प्रश्रयावनतो क्रोर कृष्णराम भाषत दिष्ट्यो पापोत कंसा गोवाधम कुल भवद्भ्याम् उद्रुतं कृश्राद् दुरन्ताच्च समेधितं युवां प्रधानपुरुषौ जगद्धेतु जगन्मयो भवद्भ्यां न विना किञ्चित् परमस्ति न च परम् आत्मसृष्टमिदं विश्वम् अन्वाविश्य स्वशक्तिभिः इयते बहुता ब्रह्मन् श्रुतप्रत्यक्षगोचरं यताखिभूतेषु चराचरेषु मज्ञातयो योनिषु भान्तिना न एवं भवान् केवल आत्मयोनिषो आत्मात्मतन्त्रो बहुता विभाधि सृजस्यतो लुम्पसिपासि विश्वं रजस्तमसद्वगु गुणैः स्वशक्तिभिः न भसेसे तुणकर्म भी ज्ञात्मनस्ते क्वेतु देहाद्युपाते अतवा न साक्षा पिधात्मन सैद न भंतस्वन मोक्ष ख्यामस्वयिनो विवेक त्वयोदितोऽयं जगतो हिताय यधा यथा वेदपतः पुराणः बाद्येतपाघण्टपतैरसद्विस्तधा भवान् सत्त्वगुणं बिभर्ति सत्त्वं प्रबोध्य वसुधेव गृहे वतीर्ण स्वांसेन भारमपनेतुमिहासि अक्षौहिणी सतवधेन सुरेतरां स राज्ञा ममुक्षच्चकुलस्य यशो विदन्वन् अद्येष नो वसत यः खलु त्वज्जगद्गुरु अदोषजया प्रविष्टः कपण्डितस्त्वब्धपरं शरणं समीयात् भक्तप्रिया तृतगिरः सुहृतकृतज्ञात् सर्वान् दताति सुकृतो भजतो भिकामान् आत्मानभि उपचयापचवचयो दिष्ट्या जनार्दनभवानि हनः प्रतीतो योगेश्वरैपिधुरा भगति सुरे सैः चिन्त्याशुनः श्रुतकळत्रधनार्दगेहं देहातिमोहरसनां भवतीयमायां श्रीशुक उवाच इत्यर्चितः भक्तेन भगवान् हरिः अक्रूरं सस्मितं प्राह गेर्भिः सम्मोहयन् इव श्रीभगवानुवाच त्वं नो गुरुपितृव्यश्च श्लाघ्यो भन्तुश्च निद्यधा वयं तु रक्षा भूष्या च भवद्भिधा महाभागा निवेश्या अर्कसत्तमाः श्रेयस्कामेनभिर्नित्यं देवा स्वार्था न साधवः नह्यं मयानि तीर्थानि न देवामृच्छिलामयाः ते पुनत्युरुकालेन दर्शनादेव साधवः सभवान् भवान् सुकृतां वै न श्रेयान् श्रेयश्चिकीर्षया जिज्ञासार्थं पाण्डवानां गच्छस्वत्वं गजाह्वयम् परते भाला सह मात्रा सुदुःखिताः आनिता स्वपुरं राज्ञा वसन्त इति शुश्रुमान् तेषु राजा अम्बिका पुत्रो भ्रातृ पुत्रेषु दीनदीहे समो नवर्तने नूनं दुष्पुत्रवस गोन्धत्र गच्छ जानीकि धत्वृत्तम् अधुना विज्ञाय यता तद्विधास्यामो यथा संस्कृतां भवेत् इत्यक्रूरं समादिश्य भगवान् हरिरीश्वरः सङ्कर्षणोद्धवाभ्यां वये ततः स्वभवनं यय इति श्रीमद्भागवते महापुराणे दशमस्कन्ते पूर्वार्धे अष्टचत्वारिंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्दा सद्गुरुनाथमहाराज कि के जय